अथर्वेदे प्रथमाष्टके तृतीयोऽध्यायः ओतायामोपगव्य इन्द्रमस्माकम् सुप्रमतिम् वावृधाति अनामृणः कुविरादस्य रायोगवाङ्केतम् परमावर्जते नः उपेदहन् धनताम् प्रतीतञ्जुष्टान्नश्येनो वसतिम् इन्द्रन्नपस्योदृभ्योऽहं यो अस्ति यामन् निसर्वसेन वृष्टिमाण इन्द्र भूरि वामम् मार्भूरस्मदधिप्रवृद्ध बधिनम् घनेनुपशाकेऽभिरिन्द्र धनोरधिविशुणक्तेव्यायन्न यज्वानः स नकाः प्रेतिमेयुः पराजिच्छीर्षा रजुस्त इन्द्रायज्वानो यज्वाभिः स्पर्धमानाः प्र यद्धिवो हरिवस्थातरुग्रतिरौ व्रताङ्गधमो रोदस्योः अयुजुत्सन्ननवद्यस्य सेनामयातयन्तक्षितयो न भग्वाः वृषायुधो न भद्रजो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् त्वमेतान्द्रुदतो रक्षतश्चायोधयो रजस इन्द्रपारे अवा आदहो दिव आदस्यमुच्चाप्रसन्वतस्तु वद शंसमावह चत्राणासः परेणहम् पृथिव्याकिरण्येन मणिना शुम्भमानाः न हिन्वादासस्थितिरुस्त इन्द्रम् परिस्पशो अदथात् सूर्येण पर्यदिन्द्र रोदसी उभे अबुभोजिर्महिना विश्वतस्य अमन्यमानामभिमन्यमानैर्निर्ब्रह्मभिरथ मोदस्योमिन्द्रा नये दिवः पृथिव्या अन्तमापूर्णमायाभिर्धनदाम् पर्यभूवन् युजम् वज्रम् वृषभश्चक्र इन्द्रो निर्ज्योतिषातमसो गा अधुक्षत अनुस्वधामक्षरन्नापो अस्या वर्धतमध्यानाव्याना सीने मनसा तमिन्द्रवोजिष्ठेन अहन्मनाहन्नभिद्योन् ज्ञा विध्यति देविशस्य या पत्तरो मघवन्यावरो वज्रेण शत्रुमवधी पृतन्यम् अभिसिद्धो अजिगादस्य शत्रोन्वितिग्मेन वृषभेण पुरोभेत् संवज्रेण सृजद्वृत्रमिन्द्र हृदस्वां मतिमतिरच्छाशदान आवः कुत्समिन्द्र यस्मिं चाकं प्रावो वज्रं शभच्युतो रेणुर्नक्ष्यामुच्छ्वैत्रेयो नृषाह्याः यतस्थौ आवश्यमम् वृषभम् दुग्र्याः सुक्षेत्रदेशे मघवञ्चित्रियम् वा जयोक्षिदत्र तस्थिवांसो अक्रञ्छत्रो यथामधरा वेदनाकः त्रिश्चिन्नो अद्या भवतन्न वेदसा विभुर्वाञ्याम युवोर्हि यन्त्रम् हिम्ये ववाससोऽभ्याजम्सेन्या भवतम् मनीषिभिः त्रयः पवयो मधुवाहने रथे सोमस्य भेनामनुविश्व इद्विदुः त्रयस्कम्भासस्कभितास आरभे त्रिर्नक्तञ याथस्त्रिर्वश्मिहादिवा समाने अहम् त्रिरवद्य गोहना त्रिरद्य यज्ञम् मधुनामिक्षतम् त्रिर्वाजवतीरिषो अश्विना युवन् दोषा अस्मभ्यमुषसश्च पिन्वतम् त्रिर्वर्तिर्याः तन्त्रिरनूनते जनेत्रिः स्वप्राव्ये त्रेधेव शिक्षतम् त्रिर्नान्द्यम् वहतमश्विना युवन् त्रिःपृक्षो अस्मे अक्षरे त्रिर्नो ओ रयिम् वहतमश्विना युवम् त्रिर्देवताः त्रात्रिरुतापतन्धियाः त्रिः सौ भगत्वम् त्रि रुदश्रवांसिनः स्त्रिष्ठम् वां सूरे दुहितारुहद्रथम् त्रिर्नो अश्विना दिव्यानि भेषया त्रिः पार्थिवादि त्रिरुदत्तमभ्यः ओमानम् शं्योर्ममकायसूनवे त्रिनोश्विना यतादिवे दिवे, दिवे परि त्रिधातु पृथिवीमशायतम् तिस्रो नासत्यारथ्यापरावत आत्मे भवातस्वसराणि गच्छतम् त्रिरश्विना सिन्धुभिः सप्तमात्रिभिःत्रय आहवास्त्रेधाहविष्कृतम् तिस्रा पृथिवीरुपरिप्रवादिवो नाकम् रक्षेथेद्युभिरक्तुभिर्हितम् त्रिचक्रा त्रिव्रतोरथस्य क्वा अत्र यो बन्धुरो ये सनीः कदा यो गो वाजिनो रासभस्य येन यज्ञन्ना सत्योपयाथः आनासत्यागच्छतम् हूयते हविर्मध्वः पिबतम् मधुपेऽभिरासभिः युवोर्हि पूर्वम् स वितोषसोरथमृतानि चित्रम् ना सत्या त्रिभिरेतादृशैरिह देवेभिर्यातम् मधुपेयमश्विना प्रायुस्तारिष्टम् नीरपांसि से वृक्षतम् सेधतम् वेषो भवतम् स चाभुवा आनो अश्विना त्रिव्रतारथे नार्वाञ्चम् रयम् वहतम् सुवीरम् शृण्वन्ता वामवसेजो हवीमि वृधे च नो भवतम् वाजसातौ याम्यग्निम् प्रथमम् स्वस्तये ह्वयामि मित्रावरुणा विहावसे क्वयामि रात्रीम् जगतो निवेशनीम् क्वयामि देवम् स वितारमूतये आकृष्णे नरजसावर्तमानो निवेशयन्नरतम् मर्त्यम् च हिरण्ययेन स वितारथेना देवोरादिभुवनानि याति देवः प्रवता यात्युद्मता याति शुभ्राभ्या यजतो हरिभ्याम् आ देवो याति सविता परावतोपविश्वा दुरिता बाधमानः अभिवृतम् कृशनैर्विश्वरूपम् हिरण्यशम्यै यजतो बृहन्तम् आस्थादृथम् सविता चित्रभानः कृष्णारजांसितविशी दधानः शितिपादो अक्षन्द्रथम् हिरण्यप्रभुगम् वहन्तः शश्वद्विषस्य पितुर्दैवस्योपस्थे विश्वा भुवनानि तस्थुः तिस्रोऽद्यावस्स पितुर्द्वा उपस्थाम् एकायमस्य भुवनेमिराषा रथ्यमृताधितस्थुरिह ब्रवीतु य उतच्चिकेतत् इशुपर्णानन्दरिक्षाण्यक्षद्गभीरवेपासुरः सुनीथः कुबे वेदानीम् सूर्यः कश्चिकेतकतमान्द्याम् रश्मिरस्यातदान अष्टव्यक्षकुभः प्रसिंगास्त्रीधन्वयोजना सप्त सिन्धून् हिरण्याक्षः सविता देव िरण्यपाणिः सविता विचर्षणि लुभेद्या वा पृथिवी अन्तरीयते अपामी वाम् बाधते वेति सूर्यमभिकृष्णेन रजसाद्यामृणोति हिरण्यहस्तो असुरस्वनीधस्व मृणीकस्व वा्या अपसेदन्नर्थसो यातुधानानस्थाः देवः प्रतिदोषम् गृणानः ये ते पन्थाः सवितः पूर्यासो रेण वः सुकृता अन्तरिक्षे तेभिर्नो अद्य पथिभिः सुगेभिरक्षाः च नो अधि च ब्रूहि देव प्रवो यह्वम् पुरूणाम् यशान्दे एव यदीना अग्निम् सूक्तेभिर्वचोभिरीमहेयम् सीमितन्य ईलते जासो अग्निन्दधिरे सहोधम् हविष्मन्तो विधेमते सत्वन्वो अद्य सुमला इहा विताफवा वाजेषु सन्त्य प्रत्वा दूतमृणीमहे होतारम् विश्ववेदसम् माहस्ते सतो विचरन्त्यर्चयो दिविस्पृशन्ति मानवाः देवासष्ठवा वरुणो मित्रो अर्यमासम् धूतम् रत्नमिन्धते विश्वंसो अग्ने याथनैस्ते ए ददाशमर्त्याः मन्द्रो होता गृहपतिरग्ने दूतो विशामसे त्वे विश्वासङ्गतानि व्रता ध्रुवायानि देवा अकृता त्वे इदग्ने सुपके यजविष्ठ विश्वमाहूयते हविः त्वन्नो अद्य सुमना उता परम् यक्षि देवान् सुवीर्या तङ्घे मित्थानमस्मिन उपस्वराजमासते होत्राभिरग्निम् मनुषः समिन्धतेति धर्माम् सोऽश्रिधाः घनन्दो वृत्रमतरन्द्रोदशी अपउरुक्षयाय भुवत्कण्वे वृषा आद्युम् न्याहुतः क्रन्ददश्वो गविष्टिशो संसे एतस्व महाम् अशिषोजस्वदे पीतमः विधोपमग्ने अरुषं नियेध्यतृजप्रशस्तदर्शतम् यजन्ता आदेवासो मनवेदधुरिहयजिष्ठम् हव्यवाहन कण्वो मेध्यालिथिर्धनस्मृतम् यम् मृषायमुपस्तुतः यमग्निम् मेध्यालिधिः कण्वईहृदा र तस्य प्रेषो दीदियुस्तमिमालुतस्तमग्निम् वर्धयामसि राजस्फूर्ध्निवधावोऽस्ति हि ते अग्ने देवेष्वाप्यम् त्वम् वाजस्य श्रुत्यस्य राजसि ऊर्ध्व ऊष्ण ऊतये तिष्ठा देवो न सविता ऊर्ध्वो वाजस्य सनिताय दञ्जिभिर्वाहद्भिर्विह्वयामहे ऊर्ध्वो नः पाह्यम्ह सोनिकेतुनाविश्वंसमत्रिनन्दः कृधीन ऊर्ध्वाञ्चरसाय जीवसे विना देवेषु नो दुवाह पाहि नो अग्नेरक्षसः पाहि धूर्तेरलाणः हिरीषर उत बाजिघांसतो बृहद्भानो यमिष्ठ्या घने भविष्वग्विजह्य रावणस्तपुर्जम् भयो अस्मद्धृक यो मर्त्यशिशे ते अत्यक्तुभिर्मानः स रिपुरीशत अग्निर्वौने सुवीर्यमग्निः कण्मा अग्निना दुर्वसंयगम् बरावर उग्रादे एवं हवामहे अग्निर्नयन्नववास्त्वम् रहद्रथम् दुर्वीलिन्दस्य वेसहाः नित्वामग्नेमनुर्दधेज्योतिर्जनायशस्वते दीनेथकण्तजातरुक्षितो यन्नमस्यन्ति कृष्टयाः द्वेषासो अग्नेरममवममन्तो अर्चयोः भीमासो न प्रतीतये रक्षस्विनः सरमिद्यातुमावतो विश्वम् समत्रिनन्दः क्रीडम् वश्यर्धो मारुतमदर्वाणम् मा रथे शुभम् कण्वा अभिप्रगायत ये पिषतिभिरदृष्टिः साकम् वाशीभिरञ्जिभिः अजायन्तस्वभावः इहेव शृण्वते शाङ्कशाहस्तेषु यद्वदान् नियामञ्चित्र रञ्जते प्रवः शर्धा जृष्वये त्वे सद्यम् लायशुष्मिले देवत्तम् ब्रह्म गायत प्रवशम् सागोष्वघ्नम् निभो यामायमानुषोदमुग्राजमान्यमे जिहीतपर्वतो गिरिः येषामज्मेषु जु पृथिवीजुर्वामिव विश्वतीः मे शुरेजते स्थिरम् हि जानमेषां वजो मातुर्निरेतमे यत्सेवमनुद्विदाशवाः उदुत्ये सून भोगिरः काष्ठा अज्मेष्वत्मता श्ला अभिज्ञया तवे किञ्चिद्घा दीर्घम् ऋथुम् विहो न पातमरुद्ध्रम् प्रत्यावयन्ति यामभिः मरुतो यद्धवोपलञ्जनाङ्गचुच्यवीतन गिरीन्द्रचुच्यवीतन यद्धयान्ति मरुतः संहब्रुवतेर्ध्वन्ना शृणोति कश्चिदेषाम् प्रयातशिवमाशुभिः सन्ति कण्वे एषु बोधुवाह तत्रोऽषुमादयाध्वैः अस्ति हिष्मा मदाय वस्म शिष्मा वयमे एषा विश्वम् चिरायुर्जीवसे क्रथ नूनम् कथप्रियः पिता सुन्नानम् यांसि मरुतः पसुविता वो, वो, वो विश्वानिसौभगा यद्योयम् वृष्णिमातरो मर्ता स्यातना स्तोतावो अमृतः स्यात् मा वो मृगो नयवसे चरिगा भूतजोऽश्यः पथा यमस्य गादुपा मोषुणः पराः परा ृष्णया सह सत्यं वेषा अभवन्तो धन्वञ्चिदारुद्रिया सह मिहम् कृण्वन्त्य मातान्मि वा वाति वत्सन्न मातासि शक्ति यदेशाम् वृष्टिरसर्जि दिवाचित्तमः कृण्वन्ति पर्जन्येनोदवाहेन यत्पृथिवीम् युन्दन्ति अधस्मनान् मरुताम् विश्वमासद्मपार्थिवम् अरेजन्तप्रमानुषाः मरुतो वीलुपाणिभिश्चित्रारोधस्पती नो ह्याते महिद्रयामभिः स्थिरावः सन्तु नेमयोरसाम् सुसंस्कृता अभीषवः अर्चा आवदातना गिराजरायै ब्रह्मणस्पतिम् अग्निम् मित्रम् न दर्शतम् मिमिः श्लोकमास्ये पर्जन्य इव ततनः गायकायत्र मुख्यम् वन्दस्वमारुतम् गणन्ते शम् वनस्युमर्किणम् अस्मे वृद्धा असन्निहा प्रयसिद्धा परावदः नमस्यथा नमस्य तस्य क्रत्वामरुतः कस्य वर्पसाकय्याथकम् अधूतयः वः सन्तायुधा पराणुदे वीणो उत प्रतिष्कभे युष्माकमस्तुत विषेपनीय सेमामर्त्यस्य मालिनाः पराहयत्स्थिरम् हथ नरो वर्त यथा गुरो वियाथनवनिनः पृथिव्या व्याशाः पर्वतानाम् न हि युष्माकमस्तुतविशीतना युजारुद्राः सो नोचिदाधृषे प्रवे एपयन्ति पर्वतान् विविञ्चन्ति वनस्पतेन प्रो आरतमरुतो दुर्मलाः इव देवाः सः सर्वया विषा उपो रथे शु पृषदीरयुग्धम् रक्षोहतिरोहितः आ वो अभक्षूतना आयतं रुद्रा अवो अवृणीमहे ग्रन्था आ नो नन्नोऽवसा यथा आपुरेत्था कण्वा आयविभ्युषे युष्मेशितो मरुतो मर्त्ये असा आयो नो अभ्वीषते वितं असामिभिर्मरुता न ऊतिभिर्गन्ता वृष्टिन्न विद्युताः असाम्यो जो बिभृता सुदानवोऽसामि दूतयः शवाः ऋषिद्विषे मरुतः परिमन्यपरिशुन्नसृज तद्विषम् उत्तिष्ठ ब्रह्मणः स्पते ते महे उप प्रयन्तु मरुतः सुदानव त्वामिद्धि सहसपुत्रमर्त्य उपब्रूते धने हि ते सुवीर्यम् आचके प्रैतु ब्रह्मणस्पतिः प्रदेव्ये हेतुसूनृता रक्षाभीरन्नम् पङ्क्तिरान् देवायज्ञन्नयन्तु नः यो वाघते तस्मायिणां सुवीरामाय जामहे सुप्रदूर्तिमनेहसम् प्रनूनम् ब्रह्मणस्पतिर्मन्त्रम् वलत्युच्यम् यस्मिन् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे तनविद्वोचे मा विदधे शम्भुवम् देवा अनेहसं इमाम् च वाचम् प्रतिहर्यथा नवो विश्वे द्वामा वो अश्नवत् को देवयन्तमश्नवज्जनङ्गो वृक्तमर्हिषम् प्रप्रदाश्वान्पस्त्याभिरस्थितान्तर्वाभत्क्षयम् दधे उपक्षत्रम् रञ्चीदहन्ति राजभिर्भयेति सुक्षितिम् नास्य वर्तानतरुतामहाधनेनार्भे ना अस्ति वज्रिणाः यम् रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा नो चित्सलभ्यते जनाः यम् बाहुते प्रतिपान्तिमर्त्यम् ऋषः अरिष्टः सर्व एधते विदुर्गा विद्विषः पुरोघ्नन्ति राजा न एषा नयन्ति दुरितातिरः पन्था अनृक्षर आदित्या सृतञ्जते नात्राबादो अस्ति वः यञ्यज्जन् न यथा नर आदित्यापथा प्रवस्धीतये न शत् सरत्नम् मर्त्यो वसुविश्वकभुतत्मना अर्चा आगच्छत्यस्तृतः कथाराधामसखाय स्तोमम् मित्रस्यार्यम्नः महिप्सरो वरुणस्य मा वोघ्नन्तम् मा शपन्तम् प्रतिवोचेते वयन्तम् सुम्नैरिद्वाविवासे चतुरश्चिद्दधमानाद्भियादानिधातोः न दुरुक्ताय स्पृहयेत् सम्बोषन्नध्वनस्तिरव्यम्भो विमुचोऽनपात् सक्ष्वादेव प्रणः यो नः पूषन्न गो दुष्येव आदिदेशति अपस्मतं पथो जहि अपत्यम् परिपन्थिनम् श्रीवाणम् हुरश्चितम् रजा त्वन्दस्य द्वयापि नोघशम् सस्य कस्यचित् पदाभितिष्ठतपुषिम् आदत्तेदश्रमन्तुमः येन पितु नो विश्वसौभगहिरण्यवाशी मत्तम धनानि सुषणाकृधिनः सश्चरो नय सुगानः सुपथा कृणो पूषन् निह क्रतुम् विदः अध्वने पूषन् निह क्रतुम्विदः षड्धिपूर्धिप्रयम् नि पूषन् निः क्रतुम् विदह न पूषणम् मेथामसि सूक्तैरभिगृणीमसि सूनिदुश्मीमहे कद्रुद्राय प्रचेतसे मीषुष्टमाय दव्यसे वोचे मशन्तमम् हृदे यथा नो अधितिः करत्पश्वेन्दृभ्यो यथा गवे यथा तोकाय यथा आनो मित्रो वरुणो यथा रुद्रश्चिकेतति यथा विश्वे सजोषसः गाथपतिम् मेधपतिम् रुद्रञ्जलाशभेषजम् तच्छय्योः सुम्नमीमहे यः शुक्र इव सूर्यो हिरण्यमिव रोचते श्रेष्ठो देवानाम् वसूः शन्नः करत्यर्वते सुगमेषाय मेष्ये नृभ्यो नारिभ्यो गवे अस्मे सोमश्रियमधिनिधेहि शतस्य नृणा महि सरस्तु वि नृणम् मानः मा परिबाधो मारातयो जुहुनन्द आन इन्दो बादे भज यास्ते प्रजा अमृतस्य परस्मिन्धामन्द्रतस्य ूर्धा नाभा सोमवेन आभूषन्ती सोमवेदः अग्ने विवस्पदुषसश्चित्रम् राधो अमर्त्य आदाशुषे जातवेदो महा त्वमर्द्या देवाङ्मुषर्बुधाः दुष्टो हि दूतो असि हव्यवाहनोऽग्ने एरथीरध्वराणा सजोरश्विभ्या मुषसा सुवीर्यमस्मे देहि श्रवो बृहत् अत्या दूतम् वृणीमहे वसुमग्निम् पुरप्रियम् धूमकेतुम्भातीकम् युष्टिषु यज्ञानामध्वरश्रियम् श्रेष्ठम् यविष्ठमतिथिं स्वाहुतञ्जुष्टम् जनायदाशुषे देवाङ्गच्छा जातवे जातवेदसमग्निमेव्युष्टिषु स्तविष्या विद्वामहम् विश्वस्य मृतभोजन अग्नेत्रातारममृतम् इष्ठम् हव्यवाहन सुशंसो बोधिगृणते जविष्ठमधुजिह्वस्वाहुतः प्रस्कण्डस्य प्रतिरन्नायुर्जीवसे नमस्यादिव्यञ्जनम् होतारम् विश्ववेदसंहित्वा विष इन्धते स आवह देवां देवाम् इह द्रवत् सवितारमुषसभश्विनाभगमग्निम् युष्टिसुक्षपाः कण्वासस्वा सुतसो मास इन्धतेऽहं यवाहम् स्वध्वर पतिर्ह्यध्वराणामग्ने दूतो विशामसि पुषर्बुधावहसोमपीतरे देवाङ्गद्य स्परदृशाः अग्ने पूर्वा अदूषसो विभावसो दीरेऽथ विश्वदर्शतः असि ग्रामे एष्वपिता पुरोहितोऽसि यज्ञेषु मानुषः मिलित्वा यज्ञस्य साधनमग्ने होदारमृत्विजम् यद्देवाना मित्रमहः पुरोहितोऽन्तरो यासीदूत्यम् सिन्धोरिभप्रस्वनिता स कूर्मयोऽग्नेर्भ्राजन्ते अर्चयाः श्रुतिश्रुत्कर्णवन्निभिर्देवैरग्ने शुर्ख सयामभिः आसीदन्तु बर्हिषि मित्रो अर्ययाप्रातर्यावाणो अध्वरम् शृण्वन्तु सोमम् मरुतः सुदानवोऽग्निजिह्वा रतावृथाः पिबतु सोमम् वरुणो धृतम् रतोऽश्विभ्यामुषसा सजोः त्वमग्नेऽवसो गृहरुद्रादित्याङ्कृता इलास्वद्भरञ्जनम् मनुजातम् हृतपृषम् सृष्टिवा नो हि दाशुषे देवा अग्नेऽपि श्वगिर्वणस्त्रयस्त्रिंशत मावः प्रियमेधवद त्रिवज्जातवेदो विरूपवत् अङ्गिरस्वन्महिरप्रस्कण्स्य श्रुधे हवम् महिके नव ऊतये प्रियमेधा अहूषत राजन्तमधराणाः भग्निम् शुक्रेण शोदिषा घृताः हवनसन्त्येमा उशुश्रुधी गिराः ्याभिः कण्वस्य सूनभोहवन्ते वसे त्वाञ्चित्रश्रवस्तमहवन्ते भिक्षुजन्तमाः शोतिष्के एशम्बुरप्रियाग्नेहव्याय वोल्लवे नित्वा होदारमृत्विजन्दधिरेव सुवित्तमम् श्रुत्कर्णम् सप्रथस्तमम् विप्रा अग्नेदिमिष्टिषु आ त्वाभिप्रा अतिच्यवः सुतसो मा अभिप्रयाः बृहद्भाविभ्रतो हविरग्ने मर्तायदाशुषे प्रातर्याणः सहस्कृतसोमपेयायसन्ध्या इहाद्यदै व्यञ्जनम् बर्हिरासादयावसो अर्वा चन्द्रैव्यञ्जनमग्नेयश्वः अयम् सोमः सुदानवस्तम्बात तिरोऽन्यम् एषो उषा अपोर्व्याव्युच्छति प्रियादिवः स्तु देवामश्विना बृहत् या दस्रा सिन्धुमातराम नोतरायीणा झिया देवा वसुविदा मच्यन्तेवाङ्गगुहासो जोर्णाजामधिविष्टपि यद्वाम रथोऽपिभिष्परात् हविषा आदारो अपाम् विपर्तिपुरिर्नरा विनापुटस्य दर्शणिः आदारो वा अम् मतीरान्ना सत्यामतवचसा पातम् सोमस्य धृष्णुया या नी परदश्विना ज्योतिष्मतीतमस्थिरः मस्मेरासामिषम् आ नो नावामतीना यातम् पाराय गन्तवे युञ्जाथामश्मिना रथम् अरित्रम् वा दिवस्पृथुतीर्थे सिन्धो नाम रथाः धियायुज्रैन्दवः दिवस्कण्वा सैन्दवो वसुसिन्धो नाम् पदे स्वम् अभोदुभावु अंशभे हिरण्यम् प्रति सूर्याः यक्षज्जिह्वयासितः अभोदुपारमेतभे पन्थातस्य साधुया अदर्शि विश्रुतिर्दिवः तत्तदिदश्विनो रवो जरिता प्रतिभूषते मदे सोमस्य भावसाना पावसानापि सोमस्य प्रीत्या अनुष्वच्छम् भो आगतम् युगोरुषा अनुश्रियम् परिज्मनोरुपाचरत् ऋतावनथो अक्तुभिः उभापिवतमश्विनो भानः शर्म यच्छतम् अविद्रियाभिरोतिभिः इति प्रथमाष्टके तृतीयोऽध्यायः